अथ सप्तदशाधिकशततमोऽध्यायः जनमे जय उवाच कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः अमनुष्यो मनुष्याणाम् भवता ब्रह्मवादिना नामधेयानि चाप्येषां कथ्यमानानि भागशः त्वत्तः ब्रह्मन् पाण्डवानां च कीर्तय ते सर्वे महात्मानो देवराजपराक्रमाः त्वयिवांशावकरणे देवभागाः प्रकीर्तिताः एतदिच्छाम्यहं श्रोतुम् अतिमानुषकर्मणां तेषामाजननं सर्वं वैशम्पायनकीर्तय वैशम्पायन उवाच राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते चरन्मैथुनधर्मस्थं ददर्शमृगयूथवम् ततस्तां च मृगीं तं च रुक्मपुङ्खैसु पत्रिभिः निर्बिभेदशरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः स भार्यया सह मृगरूपेण सङ्गतः संसक्तश्च तया मृग्या मानुषी क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः